तथा हि सोऽयम् कदाचित् क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्याम् सञ्चरेत् चेद् आगमिष्यत्याग इत्यनाविष्कृतातपो भयेन भगवान् सहस्रभानुरपि संकुचित तत्सानूनि नूनम् संश्रयते एष मृगाङ्कोऽपि मृगयाया स परिश्रान्ति विश्रान्त्यै सम्भ्रमम् पुनरेव वच्मि एष मृगाङ्कोऽपि मृगयाया स परिश्रान्ति विश्रान्त्यै दशमुखे तत्रत्य तत्रत्यविचित्रतरशातकुम्भस्तम्भाग्रप्रत्यग्रप्रत्युक्तस्फटिकशिलाशालभञ्जिका पुञ्ज करतलकलितनिजोपलमय कलशमुखाटाच्छाम् अविच्छिन्नधाराम् अम्बुधाराम् नि पात्रं निजकराभिमर्शादापादयस्तस्य तेन विंशतिविधवीक्षणानन्दनेन सङ्क्रन्दननन्दना स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतुर्वृन्दस्य बन्दीकृत सुरसुन्दरीनयनेन्दीवरद्वन्द्वाच्च करारविन्दकलितकनककलशाच्च मन्दोष्णम् स्यन्दमानैरम्बुभिर् जम्बालवालस्य प्रभवो न भवन्ति अत्र जम्बालितानि नाम जम्बालवत्कृतानि तन्नाम पङ्कीकृतानि इति एतेऽपि पावका रूढिशङ्कावहाम् हुतवहाख्याम् वहन्तस्तद्गृहे पौरोगवधुरं नाम महानसाध्यक्षाधिकारम् स एष मानुषादवमाननमागमिष्यतीति तदितरैरवध्यत्वम् चतुर, चतुरानवराल्लब्ध्वा समुद्धतःप्रति सम्प्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रणकिणस्थपुटितवक्रस्थलः स्थलकमलिनीम् कम, वनवारण इव रावणस्त्रिलोकीम् अभिभवन् भवदीयानित्यस्मान्न जातु किञ्चिदपि जानातीति